Lakshmi sakala vighna samhareni सुराद्यखिलदनुजान्तकं सहज सान्ध्यात्मिकां सर्वादिमूला महिषडोरा सुराध्यखिल दनुजान्तकं सहज सान्ध्यात्मिकां सर्वादिमूलां विहितधर्मानुगां हितहेतुभूता इह परसुख परसुख प्रदा विन्या वद्रता विजय लक्ष्मी सकल विघ्न भाविता केवलानन्दमय भावनां भासुरा देवता कोटिसंजेवितां भाविता केवलानन्दमयभावनां भासुरा एव रिपुसंहारते जोमयानि past the day